अथ द्वादशाधिकशततमः सर्गः तमप्रतिमतेजोभ्याम् भ्रातृभ्याम् रो महर्षणम् विस्मिताः सङ्गमम् प्रेक्ष्य समुपेता महर्षयः अन्तर्हितामुनिगणाः स्थिताश्च परमर्षयः तौ भ्रातरौ महाभागौ काकुत्स्थौ प्रशशंसिरे सदार्यौराजपुत्रौ द्व धर्म जौ धर्म विक्रमौ श्रुवा वयं सुभ स्पृहयामे ततस्ृषिगणा क्षिप्रम दश ग्रीववधषिण भरतम राजूलमचुसंगता वचह कुलले जातम प्राज महृत्मश सदा नृणमिमम् रामम् वयमिच्छामहे पितुः अनृणत्वाच्च कैकेय्याः स्वर्गम् दशरथो गतः एतावदुक्त्वा वचनम् गन्धर्वाः स राजर्षयश्चैव तथा सर्वे स्वाम् स्वाम् वाक्येन शुशुभे शुभदर्शनः रामः संहृष्टवदनस्तादृशीनभ्यपूजयत् त्रस्त गात्रस्तु भरतः स वाचा सज्जमानया कृताञ्जलिरिदम् वाक्यम् राघवम् पुनरब्रवीत् रामधर्ममिमम् प्रेक्ष्य कुलधर्मानुसन्ततम् कर्तुमर्हसि काकुत्स्थमम मातुश्च याचनाम् रक्षितुम् सुमहद्राज्यमहमेकस्तु नोत्सहे पौरजानपदांश्चापि रक्तान् रञ्जयितुम् तदा ज्ञातयश्चापि योधाश्च मित्राणि सुहृदश्च नः त्वामेव हि प्रतीक्षम् ते पर्जन्यमिव कर्षकाः इदम् राज्यम् महाप्राज्ञस्थापय प्रतिपद्य हि परिपालने एवमुक्त्वा पतद्ध्रातुः पादयोर्भरतस्तदा भृशम् सम्प्रार्थयामास राघवेति प्रियम् वदन् तमङ्के भ्रातरम् कृत्वा रामो वचनमब्रवीत् श्यामम् नलिनपत्राक्षम् मत्तःहम् सस्वरः स्वयम् आगता त्वामियम् बुद्धिः स्वजा वैनैकी चया वृषमुत्सहसेतात रक्षितुम् पृथिवीमपि अमात्यैश्च सर्वकार्याणि सम्मन्त्र्य महान्त्यभिः लक्ष्मीश्चन्द्रादपेयाद्वाहिमवान्वाहिमम् त्यजेत् अतीयात्सागरो वेलाम् न प्रतिज्ञामहम् पितुः कामाद्वातातलोभाद्वा मात्रा तुभ्यमिदम् कृतम् न तन्मनसि कर्तव्यम् वर्तितव्यम् च मातृवत् एवम् ब्रुवाणम् भरतः कौसल्यासुतमब्रवीत् अधिरोहार्यपादाभ्याम् पादुके हेमभूषिते एतेः सर्वलोकस्य योगक्षेमम् विधास्यतः सोऽधिरुह्य नरव्याघ्रः पादुके व्यवमुच्य च प्रायच्छत्सु महातेजा भरताय महात्मने सपादुके सम्प्रणम्य रामम् वचनमब्रवीत् चतुर्दश हि वर्षाणि फलमूलाशनो वीरभवेयम् रघुनन्दना तवागमनमाकाङ्क्षम् वसन् वै नगराद् बहिः तव पादुकयोर्न्यस्य राज्यतन्त्रम् परन्तप चतुर्दशे सम्पूर्णे वर्षे हणिरघूत्तमा न द्रक्ष्यामि यदि त्वाम् तथेति च प्रतिज्ञाय तम् शत्रुघ्नम् च परिष्वज्यवचनम् चेदमब्रवीत् मातरम् रक्षकैकेयीम् मा रोषम् कुरुताम् मया च सीतया चैव इत्युक्त्वा श्रुपरीताक्षो भ्रातरम् विससर्जः सपादुकेते भरतः स्वलङ्कते महोज्ज्वले धर्मवित् प्रदक्षिणम् चैव चकार राघवम् चकार चैवोत्तम नागमूर्धनी अथा न पूर्व्या जनं जनम् गुरूंश्च मन्त्रीन् प्रकृतीस्तथानुजौ व्यसर्जयद्राघव वंशवर्धनस्थित मातरो बाष्पगृहीत कण्ठ्यो दुःखेन नामन्त्रयितुम् स चैव मातृरभिवाद्य सर्वा ऋदम् कुटीम् स्वाम् रामः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वादशाधिकशततमः सर्गः